श्रीमद्भागवतमहापुराणं चतुर्थी स्कन्द अश षोडशोऽध्यायः मैत्रेवाच इति ब्रुवाणं नृपतिं गायकामुनिचोदिताः सुष्टुवु स्तुष्टमनसन्तद्वागमृतसेवजा नालं वयं ते महिमानुवर्णने यो देवभर्योवचतारमाययाम् वेदाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुरुन्धियः अथाप्युतारश्रवस पृथोर्हरे कलावतारस्य कथामृतादृताः यथोपदेशम्मनिभिः प्रचोदिता श्लाघ्यानि कर्माणि वियं वितन्महे एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् गोप्ताच च धर्मसेतूनां शास्त्रा तद्बरिपन्थिनाम् एष वै विभरते कस् का नौतनुः काले काले यथाभागं लोकयोरुभयोहितं वशुकाल उपादत्ते काले चायं विमुञ्चति समः सर्वेषु भूते सु तिधिक्षत्य क्रमं वैन्य उपर्याक्रमतामपि भूतानां करुण शश्वन् आर्तानां चितिविमान् देववर्षत्यसौ देवो नरदेव वपुरुहरिः कृणा प्रजाशि स रक्षिस्त्यन् यजसेन्द्रभत आब्जायत्यसौ लोकं वदनामृतमूर्तिनाम् प्रानुरागावलोकेन विसर्दस्मेतचारुणाम् अव्यक्तवर्त्मय स निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः अनन्तमाहात्मगुणैकधा मापृथो प्रचेतायु संवृतात्मा दुरासदो दिर्विषः विदूरवन् नैवाभिभवितुं शक्यो वेनारण्योत्थितो नलः अन्तर्वहिष्यभूतानां पश्यन् कर्माणि चारणै उदासीनबाध्यक्षो वायुरात्मेव देहिशिनां नादण्ड्यं दण्डयत्येषतमात्मा द्विषामपि दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः अस्याप्रतिहतं चक्रं तिथो रामान्न साचलात् वर्तते भगवानर्को यावद्वदति गोगणैः रञ्जिष्यति यल्लोकम् आयमात्मविचेषितैः अथामुमाहुराजानं मनोरञ्जकैः प्रजाः दिनव्रतः सत्यसन्दो ब्रह्मण्यो वृद्धसेवकः शरण्य सर्वभूतानां माननो दीनवत्सलः मातृभक्तिपरस्तेषु पत्न्यां पत्न्याम् अर्ध इवात्मनः प्रजासोऽपि दृवस्सिग्ध किंकरो ब्रह्मवादिनां देहिनात्मात्मं वत्प्रेष श्रीदां नन्दिवर्धनः मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणीरसाचो अयं तु साक्षाद्भगवान्त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः यस्मिन्न विद्यारचितं निरर्थकं पश्यन्ति नानात्वम् अपि प्रतीतम् अयं भुवो मण्डलमोदयाद्रे गोप्तैकवीरो नरदेवनाथ आस्थाय चैत्रं रथमात्रचाप पर्यस्यते दक्षिणतो यथार्कः अस्मै निपाला किल तत्र तत्र वरिं हरिष्यन्ति सलोकपालाः मश्यन्त आदिराजं चक्रायुधं तद्यथ उद्धरन्त्यः अयं महिं गां दुदुहेधिराज प्रजापतिर्वृत्तिकर प्रजानां यो लीलयाद्रिन्सुसरासकोट्याभिन्दन् समां गामकरोद्यतेन्द्रः विस्फुर्यन्नाजगवं धनुष्वयं यदा च रक्ष्मामविषय्यमाजौ तदा निरल्यो दिषि दिश्य सन्तोलाङ्गूलमुद्यम्य यथा मृगेन्द्रः एषो समेधान् सतमाजहार सरस्वती प्रादुर्भावी यद्र आहारसिद्ध्यस्य हयं पुरन्द्र वर्तमाने एष स्वसद्योपमने समेत्य सनत्कुमारं भगवन्तमेकम् आराधभक्त्या लभतामलं तज ज्ञानं यतो ब्रह्म परं विदन्ति तत्र तत्तगिरस्तास्ता इति विश्रुतविक्रमः श्रोषत्यात्मा श्रिता गाथा पृथो पृथो पराक्रमः जित्या प्रतिरुद्धचक्रस्वतेजसोत्पाटितलोकशल्यः सुरासुरेन्द्रैरुपगीयमानां महानुभावो भवितापतिर्भुवः इति श्रीमद्भागुते महापुराणे प्रमुचां चैतायां चतुर्सस्कन्धे षोडशोऽध्यायः